हिम्नस्तोत्रम् अनिर्वाच्यम् रूपम् सवननिकरो यत्र गणितः तथा पक्ष्ये स्तोत्रम् प्रथमपुरुषस्यात्र महतः यतो जातम् विश्वस्थितिमपि सदा यत्र विलयः स श्रीगणपतिः गणेशम् गणेशाशिवमिति च शैवाश्च विबुधाः रविं सौरा विष्णुम् प्रथमपुरुषम् विष्णुभजकाः वदन्त्येके शाक्ता जगदुदयमूलाम् परशिवाम् न जाने किम् तस्मै न मयिति परम् ब्रह्म सकलम् तथेशं योगज्ञा गणपतिमिमम् कर्म समेवांसावेलान्तिन इति परं ब्रह्म सकलम् अयां साङ्ख्यो ब्रूते सकलगणरूपाञ्च सततम् प्रगर्तारं न्यायस्पथ जगति बौद्धाधियमिति कथं ज्ञेयो बुद्धेः परतरहियम् बाह्यसरणिः यथा धीर्यस्य स्यात् स च तदनुरूपो गणपतिः महत्कृत्यम् तस्य स्वयमपि महासूक्ष्ममनुपत् ध्वनिर्ज्योतिर्विन्दुर्गगनसदृशः किञ्च सदसत् अनेकास्योपाराक्षिकरचरणोऽनन्तहृदयः तथा नानारूपो विविधवदनश्रीगणपतिः अनन्ताह्वशक्त्या विविधगुणकर्मैकसमये सङ्ख्यादानन्ताभिमतफलदोनेकविषये न यस्यान्तो मध्यो न च भवति जादिष् महताम् अलिप्तः कृत्वेऽर्थम् सकलमपि खम् वत्स च पृथक् स्मृतः संस्मर्तॄणाहम् सकलहृदयस्तः प्रियकरो नमस्तस्मै देवाय सकलसुरवन्द्याय महते गणेशाद्यम् बीजम् दहनवलितापल्लभयुतम् मनुश्चैकार्णोऽयम् प्रणवसहितोऽभीष्टफलदः स हिन्दुश्चाङ्गाद्याम् गणकऋषि छन्दोऽस्य च निचृते स देवः प्राग्बीजम् विपदपि च शक्तिर्त्यपकृताम् ककारोहे का रम्म सगुण इति पुंनिर्गुणमयो े गोजारः प्रकृतिपुरुषो ब्रह्म हि गणः स चेशश्चोत्पत्तिस्थितिलयकरोऽयम् प्रथमको यतो भूतम् भव्यम् भवरिपतिरीशो गणपतिः गकारः कण्ठोर्ध्वम् गजमुखसमोमर्त्यसदृशो नकारः कण्ठाहो जठरसदृशाकार अधोभावः कट्याञ्चरण इति हेशोऽस्य च तनुः विभातीर्थम् नाम त्रिभुवनसमम् भूर्भुवः सुवः गणेशतित्र्यर्णात्मकमपि वरम् नाम सुखदम् सदुर्प्रोच्चैरुच्चारितमिति नृभिक्वानकरम् गणेशस्यैकस्य प्रतिजपकरस्यास्य सुहृदम् न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः गणेशे ज्याह्वम् यः प्रवदति मुहुस्तस्य पुरतः प्रपश्यंस्तत्वक्रम् स्वयमपि गणस्तिष्ठति तदा स्वरूपस्य ज्ञानम् त्वमुक इति नाम्नास्य भवति प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना गणेशो विश्वेष्वंश्च विश्वम् गणपतौ गणेशो यत्रास्ते धृतिमतिरमैश्वर्यमखिलम् समुक्तवं नामैकम् गणपतिपदम् मङ्गलमयम् तदेकास्ये दृष्टे सकलविबुधास्ये क्षणसमम् बहुक्लेशैर्व्याप्तस्मृतभुत गणेशे च हृदये क्षणा मुक्त सहसाभ्रजयवत वह विद्यारंभे युधि ऋपुभमनेवेश प्राणांते गणपति पदं चाशुशति गणाध्यक्ष ज्येष कपिल अपरो मंगलनिधि दयालुर्हे रम्बो वरद इति चिन्तामणिरजः परानीषोडुण्डिर्गजपदननामासि वसुतो मयूरेशो गौरीतनय इति नामानि पठति महेशोऽयम् विष्णुः सकविरविरिन्दुः कमलजः क्षितिस्तोऽयम् वह्निः श्वसन इति खन्त्वत्रिरुदधिः भुजस्तारः शुक्रो गुरुरुडुधो गुरुश्च धनदो यमः पाशी काव्यस्य निरखिलरूपो गणपतिः मुखं वह्निः पादौ हनिरपि विधाता प्रजननम् रविर्नेत्रे मदनः करौ शुक्रः कट्यामवनिरुदरम् भाति दशनम् गणेशस्यासन् वै क्रतुमयवपुश्चैव सकलम् अनर्घ्यालङ्कारैररुणवसनैर्भूषिततनुः करेन्द्राश्च न सिंहासनमुपगतो भाति बुधराट् तिष्ठतस्यात् तन्मध्येऽप्युलितरविबिम्बोपमरुचिः स्थिता सिद्धिर्वा मे मदितरका समन्तात् तस्यासन् प्रवरमुनिसिद्धा सुरगणा प्रशंसत्यग्रे विविधनुदिभिः साञ्जलिपुटा पीडौजाद्यैर्ब्रह्मादिभिरनुरुदो भक्तनिगरैः गणक्रीडामोद प्रमुद विकटाद्यैः सहजरैः धृतिः पादोः खड्गोञ्जनरसबला सिद्धय इमा सदा पृष्ठे तिष्ठन्त्यनिमिषदृशस्तन्मुखलया गणेशम् सेवन्तेऽपि यदि निकटसूपायनकरा मृगाङ्कास्यारम्भा सुसंगीतं पुरतः मुदः पार्वो नात्रे चनुपमपदे दौर्विगणिता स्थिरम् जातम् चित्तम् चरणमवलोक्यास्य विमलम् हरेणायम् जातस्त्रिपुरमधने चासुरवधे गणेशः पार्वत्या बलविजयकालेऽपि हरिणा विधात्रा संसृष्टा नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा अयं सुप्रासाय सुर इव भुवने, महान् श्रीमानाजो लघुतरगृहे रङ्कसदृशः शिव द्वारे द्वास्थो नृव सदा भूपति गृहे स्थियो भूत्व वाङ्के शिशुगणपतिर्लालनपरः अमुष्मिन् सन्तुष्टे गजवदन एवापि विबुधे ततस्ते सन्तुष्टास्त्रिभुवनगलास्युर्बुधगणाः दयालुर्हे रम्भो न च भवति यस्मिंश्च पुरुषे हृदा सर्वम् तस्य प्रजननमतः वरेण्यो भ्रूशुण्डिर्भृगु गुरुकुजामुद्गलमुखाः अपारास्तद्भक्ता जपहवनपूजास्तु ति परा गणेशोऽयम् भक्तप्रिय इति च सर्वत्र गदितम् विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः मृदः काश्चिद्धातोश्च न विलिखिता वापि दृशतः स्मृता व्याजान्मूर्तिः पथि यदि बहिर्येण सहसा अशुद्धोद्धा द्रष्टा प्रवरति तदाह्वाम् गणपतेः श्रुताशुद्धो मर्त्यो भवति तुरिता द्विस्मय इति बहिर्द्वारस्योर्ध्वम् गजवदनवर्ष्मेन्धनमयम् प्रशस्तम् वा कृत्वा प्रभावात्तम् विलोक्यानन्दस्ताम् भवति जगतो विस्मय इति सिते भाद्रे मासे प्रतिशरदि मध्याह्नसमये गुरो मूर्तिम् कृत्वा गणपतिविधौढुण्ठिसदृशीम् समर्जत्युत्साहः प्रभवति महान् सर्वसदने विलोक्यानन्दस्ताम् प्रभवति मृणाम् विस्मय इति ेकः श्लोको वरयति महिम्नो गणपदे कथं स श्लोकेऽस्मिन् स्तुत इति भवेत् सम्प्रपठिते स्मृतम् नामास्यैकम् सकृदिदमनन्ताह्वयसमम् यतो यस्यैकस्य स्तवनसदृशम् नान्यदपरम् गजवदन विभो यद्वर्णितम् वैभवन्ते शिवमेर्थम् चारुतद्दर्शयाशु त्वमसि च करुणाया सागरः कृत्स्नदाता ययि तव भृदकोऽहम् सर्वदा चिन्तकोऽस्मि सुस्तोत्रम् प्रपठतु नित्यमेतदेव स्वानन्दम् प्रतिगमनेऽप्ययम् सुमार्गः सञ्चिन्त्यं स्वमरसि तत्पदारविन्दम् साप्याग्रेस्तवनफलं न दीत्करिष्ये गणेशदेवस्य माहात्यमेदवे यश्रावये पठे तस्य क्लेशालयं यान्ति लभे शीघ्रम् स्त्रीपुत्रविद्यार्थगृहञ्च मुक्तिम् इति श्रीपुष्पदं तविरचितम् श्रीगणेशमहिमस्तोत्रम् सम्पूर्णम्